श्लोकं प्रवर्तमानः विषयः अस्ति करपत्रं विशेषणं विशेषं च तर्हि तस्मात् पूर्वं वयं लक्षणग्रन्थे लक्षणभागे आसन् तत्र लक्ष्यं किं लक्षणं किम् इति अपि अस्माभिः दृष्टं जिज्ञासितः विषयः यं यस्य विषयस्य ज्ञानं प्राप्तुम् इच्छामः तद्भवति लक्ष्यम् अपि च तस्मिन् लक्षणे विद्यमानः असाधारणधर्मः भवति लक्षणम् इति तर्हि गन्धवती पृथ्वी इति लक्षणवाक्यम् अस्ति पृथ्वी इति द्रव्यस्य तादृशवाक्यम् अस्ति मूलग्रन्थे तर्कसङ्ग्रहे तर्हि अस्मिन् वाक्ये यद्यपि गन्धवती इति विशेषणम् इव भाति अपि च पृथ्वी इति विशेषम् अस्ति किन्तु उभयपदानाम् एका एव विभक्तिः अस्ति अपि च गन्धवती इत्यनेन पृथ्वी एव सूच्यते अतः एकार्थकत्वम् अपि अस्ति अतः तयोः समानाधिकरणम् अस्ति किन्तु अत्र अस्य करपत्रस्य प्रयोजनं किम् इति चेत् अ... कीदृशं लक्षणं भवेत् अ... लक्षण अ... लक्षणपदम् अपि च लक्षपदं कीदृशं भवेत् इति विषये चर्चा गभीरा चर्चा अस्मिन् अस्मिन् करपत्रे अस्ति गतवर्गे अस्माभिः विशेषणानां विशेषणवाचकपदानि एतावत्पर्यन्तं प्राप्तम् इदानीम् एक एव विशेषणम् इत्यस्मात् आरभ्य वयम् अग्रे अग्रेसरामः पतामी। एक एव विशेष यद कोपलम बालक वजती तदा विशेषणं केवलं बालकत्वं विशेषण केवल बालकत्म तथा त्रालक विदम बालकत्शेणवाचकपंम बालक बालक पूर्वोया विशेषवाचकशब्द न्योक्तरी विशेषणवाचकशूमिकावय अस् विशेषवाचकशब गुणवाची गुणवाचक वाक्यवय अस्त माद किमपि वक्तव्यं खलु अस्तु अत्र यदि वयं बालकः इति केवलम् एक एव शब्दम् उपयोगं कुर्मः तर्हि तत् तत् शब्दं किं सूचयति इत्युक्ते न केवलं तत् बालकत्वं सूचयति तत् तु बालक बालकत्वस्य विशेषण वाचकपदम् अपि तत् सूचयति अतः केवलं बालकः इति वदनेन अत्र अर्थद्वयं साधयितुं शक्यते किमर्थम् इत्युक्ते अत्र बालकः विशेषणपदमपि विशेषणवाचकपदमपि भवति अनन्तरं विशेष्यवाचकपदम् अपि तत् तु भवति अतः अत्र भूमिकाद्वयं निर्वहति एतत् एषः शब्दः समीचीनं सत्यम् अनन्तरम् अग्रिमम् उन्नतः केवलं गुणिवाचकः तर्हि कथं विशेषणवाचकः उन्नतः विशेषणवाचकः वाचकशब्दः इति अधुना उक्तम् उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानः द्वयमपि कथम् इति अत्र द्वितीयप्रश्नः अस्ति प्रथमतया तु वयम् एकं आ, सामान्य विशेष विशेष्यपदं नीत्वा तत् तु विशेषणपदम् अपि इति वयं निर्णयं कृतवन्तः अधुना एक गुणिवाचकपदं स्वीकृत्य थी न केवलं तत् तु गुणिवाचकशब्दः अस्ति परन्तु अधुना तत् तु आ, आ, आ, इति अत्र भूमिकाद्वयम् एतदपि निर्वाहतुं शक्नोति विशेषणवाचकशब्दम् अपि इति कथं वा निर्णयितुं शक्नुमः इत्युक्ते तत्र उत्तरम् अग्रे दत्ता दत्तमस्ति द्वयमपि कथम् इति अत्र अस्ति गुणि गुणं यस्य अस् यस्मिन् अस्ति इति सः गुणिन् इति अत्र अस्ति अतः एतत्तु विशेष्यवाचकपदम् अपि अस्ति इति अत्र सूचितम् अस्ति परन्तु कथं वा तत्र निर्णयं कर्तुं शक्नुमः इति अग्रे दत्तमस्ति अत्र प्रश्नः अस्ति गुणिवाचक एकः एव शब्दः गुणिवाचकः अपि अस्ति विशेषणवाचकः अपि अस्ति इति कथम् इति अत्र प्रश्नः उपस्थापितः अस्ति धन्यवादः भगिनी नमस्कारः महोदय श्रूयते वा, द्वयं वा द्वयं हा श्रूयते नमस्ते भगिनि द्वयम् अपि कथम् इति इत्यस्मात् आरभ्य पठति वा एकं परीक्षा द्वयमपि कथं गुणविशिष्टं गुणिनम् इत्यस्य तात्पर्यं तदेव उन्नतः इत्युक्ते औन्नत्यरूपगुणविशिष्टः पदार्थः इत्युक्ते अनेन उन्नतशब्देन गुणे अपि सूचितः गुणः अपि सूचितः उन्नतः वृक्षः इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति किल नाम तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति केन शब्देन इदम् अवगम्यते उन्नतशब्देन एतदर्थम् उच्यते यत् <clears throat> गुणिवाचकाः शब्दाः ये ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचिकाः अतः उन्नतः उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अपि अन्तर्भूतः नाम औन्नत्ययुक्तवृक्षः उन्नतशब्दस्य यः समग्र अर्थः तस्मिन् समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेशवृत्तिः इत्युक्ते एकभागः अत्र उन्नतः विशेषणवाचकशब्दः uh, अस्ति तथा गुणिवाचकशब्दः uh, अस्ति uh, हा इति तथे तत् इति प्रश्नः अस्ति तत्र द्वयमपि कथं भवति अत्र उन्नतः औन्नत्यरूपगुणविशिष्टः अस्ति तत्र उन्न गुणिः अस्ति गुणः अपि सूचितः अस्ति अत्र उन्नतः वृक्षः अत्र औन्नत्य इति गुणः अस्ति अनन्तरं तत् गुणः गुणः वृक्षे अपि अस्ति अतः शब्देन गुण सूचकम् अस्ति गुण दृश्यते गुणिवाचकशब्दः ते गुणविशिष्टगुणिवाचकः अस्ति अतः उन्नतशब्दस्य अर्थः गुणः अपि अस्ति अनन्तरम् आन, उन्नतशब्देन गुणि इत्यस्य वर्णनमपि भवति अतः उन्नतशब्दस्य समग्र अर्थः औन्नत्य इति गुण अस्ति युक्तवृक्षः अस्ति तत्र एकदेश इत्युक्ते तस्य एकविभागः अस्ति एकभागः अस्ति सम्यक् अस्ति वा महोदय तदेव अस्ति तर्हि उन्नतः शब्दः उच्चार्यते तदा तस्य तात्पर्यम् अस्ति गुणविशिष्टगुणिनम् बुन तर्हि औनत्यरूपगुणविशिष्टः कश्चन पदार्थः इति एव उन्नतः इति शब्दस्य अर्थः भवति अतः उन्नतः शब्दः गुणम् अपि बोधयति गुणिम् अपि बोधयति इति अर्थः एकनिमिषम् तर्हि अत्र उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अन्तर्भूतः उन्नतशब्दस्य यः अर्थः इत्युक्ते उन्नतशब्देन यः पदार्थः बोध्यते यः वस्तु यद् वस्तु बोध्यते तस्मिन् वस्तूनि उन्नतत्वम् इति गुणः अपि अन्तर्भूतः अस्ति एकदेशत्वेन तर्हि वृक्षे ये अनेके धर्मः सन्ति तेषु एकः धर्मः अस्ति उन्नतत्वम् इति तदेव अत एव अत्र उक्तमस्ति औन्नत्यम् इति एकदेशभृत्ति अस्ति वृक्ष इति पदार्थे वृक्ष इति वस्तूनि hmm. अग्रे भगिनी केवलं hmm. गुणः वक्तव्यः चेत् औन्नत्यम् गुणविशि गुणिः यदा वक्तव्यः तदा उन्नतः इति एव प्रयोक्तव्यः इत्युक्ते उन्नतः वृक्षः इति गुणि तदा औन्नत्यम् इति गुणः उन्नतः इति शब्देन बोधितः किन्तु केवलं गुणः इति न औन्नत्ययुक्तवृक्षः बोधितः नाम औन्नत्यम् अपि बोधितं तदुक्तं तदुक्तम् वृक्षः अपि बोधितः अतः उन्नतः विशेषणवाचकः इति वदामः स्वयं विशेषणं न परन्तु विशेषणस्य अर्थः अस्मिन् गुणिवाचकशब्दे अन्तर्भूतः अतः अत्र यदि औन्नत्यमिति वदामः तर्हि औन्नत्यम् इत्युक्ते गुणः अस्ति परन्तु उन्नतः यदि प्रयोगः भवति तर्हि उन्नतः वृक्षः इति उन्नतगुणयुक्तगुणि इत्युक्ते वृक्षस्य बोधः भवति तदा औन्नत्यम् इति गुणः उन्नतः इति शब्देन बोधितः किन्तु केवलम् अत्र औन्नत्यम् केवलं गुणः इत्यस्य बोधनः भवति परन्तु औन्नत्ययुक्तवृक्षः वृक्षः इत्यस्य अपि भवति अतः औन्नत्यम् इत्यस्य बोधः भवति वृक्षस्य अपि बोधः भवति अतः उन्नतः इति विशेषणवाचकपदः अस्ति अत्र स्वयं विशेषणं नास्ति परन्तु उन्नतः वृक्षः इति विशेषणवाचकपदः अस्ति परन्तु विशेषणस्य अत्र दत्तमस्ति गुणिवाचकशब्दे तस्य अर्थः अन्तर्भूतः अस्ति उन्नतः इत्युक्ते कस्य कश्चित् वृक्षः अस्य अस्ति तस्य बोधः भवति गुणवाचकगुणविशिष्टगुणि इति अस्ति गुणः अपि गुणि द्वयः बोधः भवति तर्हि निष्कर्षः एवं यद्यपि उन्नतशब्दः केवलं गुणिवाचकः किन्तु अस् अस्मिन् काले गुणस्य सङ्केतः अपि अन्तर्भूतः द्वय द्वयोः अपि बोधः भवति <laughs> तत्र उन्नतः इति शब्देन भगिनी वृक्षः अपि बोधितः इति उक्तमस्ति किन्तु वस्तुतः उन्नतः इति शब्देन औनत्यविशिष्ट कश्चित् पदार्थः इति एव बोधः भवति खलु यतो हि वृक्षः पदम् तत्र नास्ति केवलम् एकमेव पदम् उन्नतः इति तर्हि तेन औनत्यविशिष्टकश्चित् पदार्थः इति बोधः भवति तर्हि वृक्षः इति बोधः भवेत् चेत् तत्र वृक्षः इति पदं योजनीयं भवति अग्रे खलु तदेव उन्नतशब्दस्य सीमा लिमिटेशन लिमिटेशन् आफ् उन्नतशब्दः इति अग्रिमविषयः अस्ति धन्यवादः भगिनी धन्यवादः अनन्तरं नमस्कार रहा नमस्ते महोदय उन्नतशब्दस्य सीमा का तर्हि उन्नतवृक्षः इत्यत्र उन्नतशब्दः विशेषणवाचकः तत्र उन्नत शब्देन उन्नत शब्द उन्नत्वम् शब्दे इति गुणः तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते न तु वृक्षः वृक्षः इति ज्ञातव्यं चेत् अग्रे वृक्षः इति शब्दः प्रयोक्तव्यः उन्नतः इति एव वदामश्चेत् कः उन्नतः न ज्ञायते कश्चन उन्नतः इत्युक्ते एतावता एव ज्ञायते इत्युक्ते वृक्षः वृक्षः वृक्षः शब्देन एव भोज्यते न तु उन्नतः शब्दः तर्हि उन्नतशब्देन वस्तुतः किं भोज्यते इत्युक्ते औन्नत्ययुक्त कश्चन पदार्थः इति एतावता एव हुँ. इदानीम् उन्नतशब्दः इति वदामश्चेत् केवलम् उन्नतः इति वदामः चेत् तत्र उन्नतः इति शब्देन केवलम् उन्नत्वं कथञ्चित् पदार्थे अस्ति इति एव तत्र बोधः जायते न तु वृक्षस्य बोधः जायते वृक्षस्य बोधः अस्माभिः करणीयं चेत् तत्र वृक्षः पदार्थः अपि अग्रे योजनीयः यावत्पर्यन्तं वृक्षः इति पदं न आगच्छति तावत् तत्र केवलम् उन्नत्वम् इति गुणस्य एव बोधः जायते यः गुणः अस्ति अतः तस्य आश्रयः कस्मिञ्चित् पदार्थे भवेत् तदेव तत्र ज्ञानं भवति उन्नतः पदार्थे उन्नत्वम् वृक्षः इति शब्देन तत्र वृक्षः योजयामः चेदेव तत्र उन्नत्वम् इति गुणः वृक्षे अस्ति इति तत्र वयम् अग्रे अवगच्छामः न तु उन्नतशब्देन अतः उन्नतशब्दस्य तत्र सीमा अस्ति इति वदन्ति उन्नतशब्दस्य सीमा अस्ति इदं करपत्रं स्वरूपमहोदयेन लिखितं तत् पुस्तकस्य अपेक्षया भाषा सरला अस्ति इति मन्ये अग्रिमपरिच्छेदं तदर्थम् एव तदर्थम् एव उच्यते औन्नत्यरूप अर्थे एक एकदेशरूपे औन्नत्यम् इति गुणः तत्र भवति एकदेश इत्युक्तौ एकः भागः अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य हानं न भवति वृक्षस्य बोधः न भवति वृक्षस्य तः चेत् वृक्षः इति एव शब्दः प्रयुक्तव्यः शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति न तु वृक्षस्य अत्र यत् पूर्वस्मिन् परिच्छेदे उक्तं तस्य पुनरावृत्ति अत्र अस्ति तदेव अत्रापि लिखितमस्ति इति भाति तर्हि औनत्यरूपगुणेन युक्तम् अखण्डं यत् अखण्डं यत् इत्युक्ते अखण्डं यत् वस्तु अस्ति वृक्ष इति वस्तु तस्मिन् अखण्डे वृक्षरूप अर्थे एकदेशरूपेण औनत्यम् इति गुणः तत्र भवति तर्हि वृक्षे अनेकाः गुणाः सन्ति तेषु एकः गुणः अस्ति वृक्षे औनत्यम् इति अतः औनत्यम् इति एकदोषरूपेण गुणः भवति इति अत्र उक्तम अस्ति एकदेश इति उक्तौ एकः भागः तर्हि वृक्षस्य एकः भागः अस्ति गुणरूपेण एकः भागः अस्ति औनत्यम् इति अग्रे भगिनी तर्हि तर्हि अग्रे उन्नतः शब्दः धर्मीवाचकः किमर्थम् इति चेत् औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इति उक्तं तादृशं विद्यमान विद्यमानधर्मः वृक्षे अतः वृक्षः धर्मी उन्नतः च तस्य सूचकः धर्मीवाचकः किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते तदर्थं वृक्षः वक्तव्यः इति उन्नतवृक्षयोः भेदः यस्मिन् धर्मः अस्ति सः धर्मी भवति प्रत्ययः कस्यापि प्रश्नः अस्ति वा अत्र तर्हि अग्रिमं वा उन्न उन्नतशब्दः गुणिवाचकः एव न तु गुणवाचकः इति सत्यं तथापि उन्नतशब्देन गुणीकः इति उन्नतशब्देन न ज्ञायते पदार्थः वृक्षः वा पुरुषः वा बालकः कुकुरः वा, वा इति यावत् विषये वाचकपदं न उच्चार्यते तावत् न योज्यते इति गुणिवाचकशब्दः तस्मिन् उन्नत्यम् इति गुणः अस्ति सः अतः उन्नतः इति गुणवाचकशब्दः गुणवाचकशब्देन तत्र पदार्थस्य बोधः न भवति यावत्पर्यन्तं वयं विशेषवाचकपदं न योजयामः तत्र तत्र पदार्थस्य बोधः भवति कश्चन पदार्थस्य यस्मिन् औन्नत्यम् अस्ति इति तत्र बोधः जायते न तु पदार्थस्य अतः तदेव भेदः उन्नतः अपि च वृक्षः वृक्षयोः मध्ये अग्रिमवाक्यं विशेषभूतः यः वृक्षः सः वृक्षः शब्देन बोध्यते औन्नत्यरूपः यः गुणः सः उन्नतशब्देन वृक्षशब्देन बोध्यते सः वृक्षशब्देन बोध्यते औन्नत्यरूपयः गुणः सः उन्नतशब्देन बोध्यते उन्नतशब्दः किन्तु उन्नतशब्दस्य यः अर्थः गुणविशिष्टः विशिष्ट यः तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते अतः एव वदामः उन्नतशब्दः विशेषणवाचकः धन्यवादः भगिनि गिरिजा भगिनी पठितुम् इच्छति वा नमस्ते सर् नमस्ते नमस्ते आ, लोगे प्रयोगा प्रयोगा हाँ। हाँ। आ, लोके लोके प्रयोगः भिन्नः लोके प्रयोगः भिन्नः किमर्थम् इति चेत् तत्र उन्नतशब्देन कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नतशब्दः विशेषणम् इति एव तत्र प्रयोगः भवति किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येद् अवगम्यता यद् उन्नतशब्दः विशेषणवाचकः न तु विशेषणम् औन्नत्यम् विशेषणम् उन्नतः विशेषणवाचकः कृषः विशेष्यवाचकः तावदेव भगिनी तावदेव किञ्चित् वदतु वृषः विशेष्यम् औनित्यं विशेषणम् औनित्यं विषये विशेषणम् उन्नतः अत्र पूर्वस्मिन् वाक्ये उक्तमस्ति यत् सामान्यतः उन्नतः वृक्षः इति श्रुत्वा वयं वदामः पुन्नतः इति विशेषणं वृक्षः इति विशेषणं विशेषं oh. किन्तु गभीरचिन्तनेन इति निष्पद्यते यत् पुन्नतः इति विशेषणं न किन्तु विशेषणवाचकं पदमस्ति अपि च वृक्षः इति विशेषवाचकः अस्ति न तु इति भेदः अस्माभिः अग्रे अवगन्तव्य अस्ति अग्रे यत् व्याकरणशास्त्रे अत्र धर्म धर्मीवाच किमर्थम् उपयो उपयुज्यते तत्र यत्र अवसरे यत्र तत्र अवसरे धर्मधर्मीवाचक कथं रिलेटेड् सर्वं धर्मीवाचकं धर्म इत्युक्ते अस्माकम् उदाहरणे गुणः अस्ति धर्मी इति वृक्षः अस्ति यस्मिन् धर्मः वर्तते सः धर्मी इति अतः उन्नतशब्दः गुणवाचकः अपि च गुणिवाचकः अपि इत्यतः उन्नतः इति शब्दः धर्मवाचकः अपि च धर्मीवाचकः अपि इति उक्तम् वृषस्य धर्मम् उन्नतः औनत्य धर्मः औनत्यम् इति यल्लिङ्गं यद्वचनं या च विभक्ति विभक्तिर्विशेष्यस्य तल्लिङ्गं तद्वचनं या च विभक्ति विभक्तिर्विशेषणं विशेषणा विशेषणस्यापि विशेषण अनेन विशेष्यवाचकस्य विशेषणवाचकस्यापि इति येषां भाषा किञ्चित् प्रगदा तैः अवगम्यत अवगम्येत सौकर्यार्थं प्रारम्भिक प्रारम्भिकः स्तरीय अवगेषु अस्य श्लोकस्य पाठनेन न दोषः किन्तु ये इतोऽपि अतीतवन्तः तैरपि तदा उच्यते चेत् दोष एव श्लोकस्य उच्चारणसमये जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम् अत्र <laughs> अहमेव किञ्चित् वदामि भगिनि अत्र श्लोके उक्तमस्ति यद्लिङ्गं यद्वचनं या या च विभक्तिः विशेषस्य तद्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि इति व्याकरणशास्त्रस्य नियमः अस्ति तत्र अस्माकम् उदाहरण उदाहरणमस्ति उन्नतः वृक्षः इति तर्हि उन्नतः इति पदं विशेषणरूपेण स्वीकृत्य अपि च वृक्षः इति पदं विशेषरूपेण स्वीकृत्य उक्तमस्ति यत् उन्नतः इति शब्दस्य विभक्तिवचनम् अथवा लिङ्गं समानं भवेत् तस्य अपेक्षया विशेषस्य अपेक्षया वृक्ष इति पदस्य अपेक्षया तत्सर्वं पदं आधारीकृत्य अपि व्याकरणे व्याकरणशास्त्रम् अनुसृत्य उक्तम् अस्ति किन्तु अस्माभिः यत् उन्नतः इति पदम् उन्नतः इति पदं विशेषणवाचकमस्ति स्वयं विशेषणं नास्ति तथैव वृक्ष इति पदं विशेष विशेष्यवाचकमस्ति स्वयं विशेष्यं नास्ति इति भेदः अस्ति न्यायशास्त्रस्य चिन्तने अपि च व्याकरणचिन्तने अतः श्लोकस्य उच्चारणसमये जवनिका इत्युक्ते कर्टन् बिहैण्ड् द कर्टन या वस्तुस्थितिः अस्ति सा अस्माभिः ज्ञेया वस्तुस्थितिः किम् इति चेत् अस्मिन् अस्मिन् श्लोके वस्तुतः विशेषस्य इत्यस्य स्थाने विशेष्यवाचकस्य इति भवेत् तेन एव उन्नतः इति शब्दः सूच्यते तथैव वृक्ष इति शब्दः सूज्यते तथैव विशेषणस्य इत्यस्य स्थाने विशेषणवाचकस्य इति भवेत् इति अत्र तादृशवस्तुस्थितिः अस्माभिः नेया इति अत्र उक्तमस्ति लक्ष्मीभगिनी सम्यक् अस्ति महोदय धन्यवादः भगिनी गिरिजा भगिनी अनन्तरं लक्ष्मीभगिनी पठति वा आं महोदय तद्वाचकः उन्नतः वृक्षः इति वाक्ये वृक्षस्य विशेषणद्वयम् इति उक्तम् औन्नत्यम् इति एकं विशेषणं वृक्षत्वम् इति अपरं विशेषणम् औन्नत्यम् इति विशेषणं केन पदेन बोध्यते तद्वाचकः शब्दः कः तद्वाचकः शब्दः उन्नतः इति एव उन्नतपदेन एव औन्नत्यम् बोध्यते तर्हि वृक्ष वृक्षत्वम् इति यत् विशेषणम् तद्वाचकः शब्दः कः तद्वाचकः शब्दः वृक्षः इति शब्दः एव तत् कथम् इति चेत् वृक्षः इति शब्देन पदार्थत्रयम् बोध्यते प्रथमः वृक्षः इति जीवः द्वितीयः वृक्षत्वम् इति वृक्षे विद्यमाना जातिः कुत्रचित् धर्मः इत्येव वक्तव्यम् भवति अत्र स च धर्मः जातिः एव तृतीयः वृक्षवृक्षत्वयोः मध्ये विद्यमानसम्बन्धः अत्र समवाय सम्बन्धः इति एते त्रयः अंशाः वृक्षशब्दे शब्देन बोध्यन्ते अत्र किम् उक्तम् इत्युक्ते अत्र एकम् उदाहरणवाक्यं दत्तमस्ति उन्नतः वृक्षः अत्र पूर्वं वयं दृष्टवन्तः उन्नतः इति अत्र वृक्षः इति पदम् न केवलं विशेषणम् अपि भवति विशेष्यमपि भवति इति किमर्थमित्युक्ते तत् तु विशेषणवाचकपदम् अपि अस्ति इति अस्माभिः पूर्वं पठितम् अत्र कथं वा एवं अवगन्तुं शक्यते इत्युक्ते अत्र औन्नत्यम् इति एकं विशेषणम् अस्ति वृक्षत्वम् इति अपरं विशेषणम् अस्ति परन्तु औन्नत्यं कुत्र वर्तते इत्युक्ते अत्र औन्नत्यं तु वृक्षे एव वर्तते एव अनन्तरं वृक्षत्वम् इति जातिः अस्ति अत्र कुत्रचित् जातिः तु धर्मः इत्यपि वक्तुं शक्यते परन्तु अधुना तत्तु जातिशब्देन सूचितम् अस्ति अतः अत्र औन्नत्यम् अस्ति वृक्षे वृक्षत्वम् अपि अस्ति वृक्षे अनन्तरं किं भवति इत्युक्ते अत्र वृक्षत्वम् इति विशेषणं भवति तत् तत् तत् सूच तत् सूचयितुं कस्य शब्दस्य उपयोगः भवति तत्सूचकवाचकः अपि अस्ति वृक्षः एव अनन्तरम् अत्र पदार्थत्रयं वर्तते इति अत्र उक्तम् अस्ति प्रथमं तु वृक्षः इति कश्चित् जीवः इति अस्ति किमर्थमित्युक्ते वृक्षः अपि एव अतः स एव जीवः इति अत्र सूचितम् अस्ति द्वितीयम् अस्ति वृक्षे विद्यमानवृक्षत्वम् इति जातिः तदपि अत्र सूचितम् अस्ति तृतीयम् अस्ति अत्र वृक्षवृक्षत्वयोः मध्ये विद्यमानसम्बन्धः कः सम्बन्धः मध्ये विद्यते इत्युक्ते अत्र समवायसम्बन्धः अत्र वर्तते अतः वृक्ष इति शब्देन अत्र अंशत्रयं सूचितम् वृक्ष <laughs> <laughs> अपि च वृक्षत्व एतयोः मध्ये समवायसम्बन्धः इति उक्तं यतोहि जातिव्यक्त्योः समवायसम्बन्धः अस्ति वृक्षत्वम् इति जातिः वृक्षः इति व्यक्तिः तयोः मध्ये समवायसम्बन्धः अग्रिमं वाक्यम् एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते यथा अत्र वृक्षशब्देन वृक्षत्वविशिष्ट वृक्षः इति अर्थः नाम वृक्षत्वसम्बन्धः यत्र अस्ति तादृशः पदार्थः इत्युक्तौ वृक्षत्वं वृक्षः तयोः मध्ये विद्यमानः सम्बन्धः एते त्रयः पदार्थाः ज्ञायन्ते पूर्वोक्त उदाहरणे अत्र वृक्ष इति शब्देन अत्र अर्थ कलय शक्यवशम सर्व अ पदार्थुश अर्थक कर्म शक्य किमे प्रत्येक पदार्थु पदार्थे अंश विदे एक त पदार्थं किम् इति बोधयति तत् पदार्थे विद्यमानजातिम् अथवा धर्मम् अपि तृतीयं तृतीयं तु अत्र पदार्थधर्मयो धर्मयोः मध्ये विद्यमानसम्बन्धविषये अपि एतद् बोधयति अतः सर्वत्र सर्वदा अंशत्रयं विद्यते इति अस्मिन् परिच्छेदे दत्तमस्ति महोदय अत्र यदि उन्नतः शब्दः स्वी उन्नतः इति शब्दः स्वीकुर्मः तपि तत्र अपि त्रया पदार्थाः बोध्यन्ते इति वक्तुं शक्यते खलु उन्नतः इति एकः पदार्थः अनन्तरम् उन्नतत्वम् इति धर्मः तस्मिन् अपि तयोः मध्ये उन्नतः अपि उन्नतत्वम् एतयोः मध्ये सम्बन्धः परन्तु अत्र तृतीय तृतीयपदा तृतीयवस्तु अस्ति न तत् पदार्थः इति अत्र न उक्तं खलु किमर्थम् इत्युक्ते अत्र उन्नतः वृक्षः अपि भवितुम् अथवा उन्नतः पुरुषः अपि कीदृशपदार्थं तत्र सूचयति इति अत्र द्वितीय अंशम् अत्र न बोधितः अस्ति इति कारणतः किन्तु विशेषशब्दे अत्र अर्थत्रयं कल्पितुं न शक्यते किन्तु उन्नतः इति शब्देन औन्नत्यविशिष्ट कश्चित् पदार्थः इति बोधः भवति न यतोहि उन्नतः उन्नतः इति पदम् किमपि गुणिनम् अपि बोधयति किन्तु गुण गुणिविषये अत्र स्पष्टता न भवति उन्नत अन्तिमं वाक्यं उन्नतवृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति उन्नतत्वं वृक्षत्वं च उन्नत उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः एषा व्यस्ता भवति यत् अस्माभिः अधुना उक्तम् एतदेव अत्र सूचितमस्ति अत्र उन्नतवृक्षः इति कथनेन अत्र विशेषणद्वयम् अत्र सूचितं भवति एकमस्ति उन्नतत्वम् कस्यापि पदार्थस्य उन्नतत्वम् अस्ति परन्तु वृक्षः इति पदयोजनेन अत्र वृक्षः एव अत्र सूचितः वृक्षस्य वृक्षे वृक्षत्वम् अस्ति इति तदपि एतदपि अत्र सूचितमस्ति अतः उन्नतवृक्षः इति पदे अत्र विशेषणद्वयं सूचितमस्ति समीचीनं धन्यवादः भगिनि धन्यवादाः निरञ्जन भगिनी श्रूयते महोदय अधुना धनवत्त्वं धनं दनम। धनवान् इति शब्दः अस्ति यथा वृक्षशब्दस्य विशेषणं किं वृक्षत्वं वृक्षशब्दस्य वदनेन वृक्षपदार्थः वृक्षत्वं तयोः सम्बन्धः च एतत् सर्वं पदार्थत्रयं ज्ञायते अधुना धनवान् इति शब्दः अस्ति इति चिन्तयतु धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः धनम् अस्मिन् अस्ति धन्वान् इति धन्वान् कः कश्चन पुरुषः धन्वान् इति शब्देन अपि पदार्थत्रयं बोध्यते किम् चेत् प्रथमः पदार्थः धन्वान् एव नाम तो धनं यस्य यस्मिन् अस्ति सः तस्मिन् पुरुषे विशेषणत्वेन यत् अस्ति सः अपि पदार्थः बोध्यते सः पदार्थः कः धनमेव वृक्षविषये अस्माभिः विशेषणं इति स्वीकृतम् अत्र धनवान् यः अस्ति तस्मिन् विद्यमान् कहा कः इत्युक्ते अस्माभिः स्वीकरणीयं नास्ति धन्वान् यः अस्ति तस्मिन् विश् विद्यमानं विशेषणं धनमेव धनवति विद्यमान् विद्यमानः धर्मः इत्युक्तम् धनम् एव कथनस्य एव। आशयाः एवं यत् धनम् अपि पश्यन् धर्मः भवति तर्हि धन्वान् इति शब्देन के त्रयः बोध्यन्ते इत्युक्ते धनम् धनं यस्मिन् अस्ति तादृशपुरुषः तयोर्मध्ये विद्यमानः संयोगसम्बन्धः एते त्रयः अंशाः ज्ञायन्ते अत्र पूर्वे वयं दृष्टवन्तः वृक्ष वृक्षे वृक्षत्वं तथा औन्नत्यम् अस्ति अत्र धनं धनवत्वं द्वयोर्मध्ये तत्र किं के सन्ति इति प्रश्नः अस्ति अत्र धनवत्वं धनम् धन्वान् इति शब्दः अस्ति यथा वृक्षशब्दस्य विशेषणं वृक्षत्वम् अस्ति तत्र त्रयः वृक्षपदार्थः वृक्षत्वं तथा तयो तयोः मध्ये सम्बन्धः समवयः सम्बन्धः अस्ति तत् तत्र अत्र धन्वान् इति शब्देन कथं मीन्स् कस्य बोधः भवति इति प्रश्नः अस्ति धनम् अनेन शब्देन धन्वान् इति शब्दः मतु प्रचन्त अस्ति अनन्तरं धनवत्तं धनम् इत्युक्ते मधुबन्ताद्विहितः भावृत्यः प्रकृतत्वं गम गमयति अनेन नियमेन धनवत्तम् इत्युक्ते धनम् एव न महोदय अतः प्रथं प्रथमपदार्थः इति धन्वान् इति शब्देन पदार्थत्रयं किमस्ति तर्हि प्रथमः पदार्थः अस्ति धन्वान् एव इति मतुबन् मतु प्रत्ययुक्तधन्वानि अनन्तरं धनं यस्य अस्मिन् अस्ति सः धनवानः अनन्तरम् अनेन तस्मिन् पुरुषे कः पदार्थः बोधयति धन्वान् इत्युक्ते धनम् इत्यस्य बोधः भवति इत्युक्ते धनं यस्य अथवा यस्मिन् अस्ति सः धनवान् तस्य धनम् एव अस्ति तस्य तेन धनम् इत्यस्य बोधः भवति यथा वृक्ष वृक्षस्य विशेषणमस्ति वृक्षत्वं तथा औन्नत्यं तथैव धनवान् इत्यस्य विद्यमानधर्मः धनः अस्ति धनः इति न स्वीकरणीयं परन्तु धन्वान् यः अस्ति तस्य विशेषणं धनम् अस्ति हा धनवति विद्यान् धर्मत्या धनम् अतः धन्वान् अनेन शब्देन कस्य बोधः भवति कथं धनवान् धनं यस्मिन् अस्ति तस् कस्मिन् पुरुषः अस्ति तयोः धनः धनम् अस्ति तथा तयोः मध्ये संयोगसम्बन्धः अस्ति यतः पदार्थत्रयस्य बोधः भवति धनवान् अनेन शब्देन धनं धनयुक्तपुरुषः तथा संयोगसम्बन्धः तत्र धनवत्त्वं यदस्ति तदेव भवत्या उक्तं धनवत्त्वम् इति शब्दः अस्ति तर्हि धनयोगः वत् मतुयोगः त्व इति अस्ति तर्हि मतुप्रत्ययात् त्वप्रत्ययस्य योजनेन मूल अर्थः एव बोध्यते इति नियमः अस्ति तर्हि धनवत् योगः मतु योगः त्व इति रचना अस्ति चेत् प्रत्ययानां रचना प्रत्ययोः रचना अस्ति चेत् धनवत्वम् इति पदं धनम् एव मूलार्थं धनम् एव बोधयति इति तेन नियमेन अस्माभिः ज्ञायते अपि च अन्यमार्गेण अपि धनवत्त्वं धनम् एव इति वक्तुं शक्यते धनवत्वम् इति उक्ते धनवती धनवत्वम् इत्युक्ते धनवती विद्यमानः धर्मः तर्हि धनवती यः धनवान् अस्ति तस्मिन् कः धर्मः अस्ति धनम् एव अतः एव तस्य नाम धनवान् इति अतः धनवती विद्यमानः धर्मः धनम् एव तदेव धनवत्वं इति पदेन बोध्यते धनवती विद्यमानः धर्मः अतः धनवती विद्यमानः धर्मः धनम् एव इति निष्पद्यते hmm. अग्रिमपरिच्छेदम् एतदपि वक्तव्यं भवति अस्ति वदामि एतदपि वक्तव्यम् धन्वान् इति शब्दः गुणिवाक्यः उन्नतशब्दः एव अतः यथा उन्नतः उन्नत इत्यस्य पथनेन वृक्षः इत्यस्य साक्षात् बोधः न, साक्षात न भवति नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्यते तावत् एव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः धनवान् अपि तथा धनम कस्मिन् अस्ति पुरुषे बालके राष्ट्रपतौ अभियन्तरी तन्न जाय ज्ञायते केवलं धनयुक्तः कश्चनस्ति इति एतावत् एव ज्ञायते सः कः इति वक्तव्यं चेत् अग्रे अन्यत् पदं प्रयोक्तव्यं यथा धनवान् बालकः इति वक्तव्यम् तथा पूर्वं वयं उन्नतः इत्यु उन्नतः कः इति बोधः न ज्ञायते तत्र तत उन्नतः वृक्षः अथवा अन्यपदार्थः अस्ति इत्यस्य बोधः जायते अतः तस्य वृक्ष इति शब्दस्य योजनेन एव तत् ज्ञायते तथैव अत्रापि धन्वान् इति शब्दः गुणिवाचकः अस्ति परन्तु धन्वान् धन इत्युक्ते धनं कस्मिन् अस्ति इत्यस्य बोधः न जायते पुरुषे अथवा बालके राष्ट्रपतौ केवलं धनयुक्तः कश्चन अस्ति इति इत्यस्य ज्ञानं भवति परन्तु सः कः इति वक्तव्यम् आवश्यक इति इत्यस्य बोधः आवश्यकः अस्ति धनवान् बालकः इति वक्तव्यम् <coughs> अग्र धनवाब्देन धनम्ञते कशन अस्त ज्ञाते तेरमध्ये संयोग अस्त ज्ञाए थे धनवान्देन एय पदार्थ ज्ञाते परंतु धनवादी शब्द शब्द वादा तरी धन तन इत्युक्ते धनवत्वम् अपि अस्ति इति ज्ञायते धनयुक्त कश्चन पदार्थः अस्ति इत्यस्य ज्ञानं ज्ञानम् अपि भवति तथा द्वयोः मध्ये कश्चन सम्बन्धः अपि अस्ति यथा संयोगसम्बन्धः अत्र अस्ति इति ज्ञायते अतः धनवान् अनेन शब्देन पदार्थत्रयस्य ज्ञानं भवति धन्यवादः अग्रिमं परिच्छेदं पठति वास्मात् आरभ्य धनवत्वम् अत्र कथं व्यवस्था इति उच्यते धनवान इति शब्दात् त्वप्रत्यय संयोजितः तेन धनवत्त्वम् इति पदा पदं सञ्जि प्रत्ययः भावप्रत्ययः भावस्य विद्यमानः प्रत्ययः वस्तुतः भावः इत्यस्य अर्थः कः इति चेत् अस्मिन् विद्यमानः धर्मः इति इदानीं वृक्षः शब्दः अस्ति वृक्षस्य भावः वृक्षत्वम् वृक्षस्य भावः अर्थः कः इत्यस्य अर्थः इति चेत् वृक्षे विद्यमानः कश्चन धर्मः अतः त्वा त्व प्रत्यः प्रत्यान् योज योजयामश्चेत् वृक्षशब्दात् तेन किं भवति वृक्षे विद्यमानः धर्मः बोध्यते तत्र एकः एव धर्मः वृक्षत्वम् एवमेव एव कोऽपि एव शब्दः भवतु अस्ति शुक्लः इति अस्ति शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम् तत्र शुक्लत्वम् इति धर्मः अस्ति आङ्ग्लभाषायां वैट्नेस् तर्हि शुक्लशब्दात् भावार्थे त्वप्रत्ययः प्रत्ययं योजयामश्चेत् तस्य अर्थः कः भवति शुक्लः इति गुणः तस्मिन् विद्यमानः धर्मः तर्हि शुक्लत्वम् इत्युक्ते शुक्ले विद्यमानः धर्मः मनुष्ये विद्यमानः धर्मः मनुष्यत्वम् अत्र धन्वत्वम् इति वक्तुं शक्यते तस्य रूपेण तत्र त्वा प्रत्यस्य विषये अस्मिन् परिच्छेदे अस्ति स्वप्रत्ययः भावाचप्रत्ययः अस्ति तत्र यस्मात् अनन्तरं वयं त्व योजयामः तस्मिन् विद्यमान धर्मः बोधः तत्र भवति यथा धन प्लस् वत्त्वप्रीत्या योजयामः चेत् तत्र धनवत्वम् इति तत्र भवति सिमिलर्लि तत्र शुक्लप्लस् त्वप्रीत्य कुर्मः चेत् तत्र शुक्लवत्वम् इति तत्र भवति शुक्लर्लि मनुष्यप्लस् त्वप्रीत्य कुर्मः चेत् तत्र मनुष्यत्वम् इति तत्र यः पदं जायते स्वप्रत्यस्य योज तेन तत्र तस्मिन् विद्यमानः धर्मः इति तस्य बोधः एव भवति अतः मनुष्यत्वं बालकत्वं शुक्लत्वम् इति वदामः चेत् तत्र तस्मिन् पदार्थे विद्यमानः धर्मः शुक्ल पदार्थ इत्युक्ते गुणरूपीपदार्थः अस्ति गुणम् गुणः अस्ति अतः शुक्लत्वम् इति शुक्ले वैट्नेस् कस्मिञ्चित् पदार्थे तादृशगुणः अस्ति चेत् वयं शुक्लत्वम् इति अपि धर्मः स्वप्रत्यस्य तत्र तस्मिन् विद्यमानः धर्मः इत्यस्य एव बोधः भवति मनुष्यः सर्वेषु मनुष्येषु यः विद्यमानः धर्मः सामाजधर्मः अस्ति इति त्वप्रत्यस्य योजनेन तत्र तादृशज्ञानं भवति सर्वेषां स्पष्टमस्ति कस्य अपि प्रश्नः अस्ति भगिनि अत्र लिखितमस्ति शुक्ल इति गुणवाचकपदमिति स्वीक्रियताम् किमर्थं तथा लिखितमस्ति शुक्ल पूर्वमस्माभिः दृष्टं यत् केचन विशेषणानि गुणवाचक अपि च गुणिवाचक उभयथा अस्ति शुक्लः इति तथैव अस्ति शुक्लः इति शब्दाः गुणवाचकः अस्ति अपि च गुणिवाचकः अपि अस्ति शुक्ला लिखित शुक्ल गुणवाचक स्वीक्रिय महोदय कस्र्भे एक शब्द तो गुणवाचकशब अवतर्वाचकशब अतम यदि सह शब गुणवाचक शरी तस्म धर्म बोधय नो चेत् यस्मिन् तद् धर्मं विद्यते तत् पदार्थं सूचयति तदेव द्वयोः मध्ये विद्यमानभेदः अस्ति सत्यं <coughs> सत्य। इदानीं धनवत्त्वं नीलं भगिनी सर। सर। सर। प्रश्नः सर् वृषस्य भावः वृषत्वम् वृषस्य भावः वृषत्वं वृषस्य मधुप् किं वृषस्य मधुप् मधु मधुप् औनित्यं वृषस्य भावः वृषत्वं वृषस्य मधुप् मनुष्य मनुष्य योगः मधुप् मनुष्यवान् इति भवति बुद्धिमान् उभधा भवितुम् अर्हति मनुष्यमान् इति स्वीकरोतु मनुष्यमान् अयम् आस्किङ्ग् अबौट् वृषः वृषः वृषस्य भावः वृषत्वं वृषस्य मधु औनित्यम् ओर् सिमिलर् टु धनवान् हा सिमिलर् टु धनवान् मनुष्यवान् क्षमतां वृक्षवान् इति वृक्षवान् स्थलं न वृक्षवत् स्थलम् इदानीं इदानीं धनवत्त्वं पठति वा इदानीं धनवत्त्वं धनवान् इति शब्दात् त्वप्रत्यं संयोजयामः पूर्वं यत्र यत्र उदाहरणं दर्शितम् तत्र तथा नियमः तथैव नियमः अत्रापि स्वीकर्तव्यः धनवान् अयोगत्वम् अनेन धनवत्वम् इत्यस्य कः अर्थः धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः सः धर्मः कः इत्युक्ते तदेव अस्माभिः पूर्वं कृतं धनमपि विशेषणरूपेण विद्यमानः धर्मः अत्र धनमेव अतः अर्थनिष्कर्षः कः इति धनवत्वम् इत्युक्तौ धनम् इति पूर्वे अपि अस्माभिः दृष्टं त्वा योजयामः चेत् तत्रैव बोधः भवति इत्येव अत्र भवति यदा वयं धनवत्वम् इति वदामः चेत् तत्र अग्रे धनवान् इति अनन्तरं त्वा प्रत्य योजयामः चेत् तत्र पदं भवति त्वम् धनवत्वम् इत्यनेन धनस्य एव इत्यस्य धनमेव समानस्थले समानस्तरे पदद्वयं धनवत्वं धनं धनवत्वम् hmm. इत्युक्ते धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः hmm. सः धर्मः कः इत्युक्ते धनमेव hmm. तत्पूर्वमपि दृष्टमस्ति hmm. अग्रिमं परिषदम् अत्र धने अत्र धने धनवर्यवासनं कृतं नाम धनवत्त्वशब्दस्य उच्चारणेन तर्कस्य पङ्क्तिः धनम् एव अधिगच्छति पर्यवसनं नाम तत्रूपम् तत्स्वरूपं धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति धनवत्वम् अपि तथा धने धनवत्वस्य पर्यव वा, पर्यवसानं तत्स्वरूपं कृतम् इत्युक्तौ धनवत्वम् अन्यत्र कुत्रापि न भवितुमर्हति धनवत्वम् इति धनम् एव पुनः उक्तं धनम् अपि च इति वदामः चेत् परिवाचिशब्दाः एव सन्ति इति वदति तस्मिन् धनवत्वं धनवत्वशब्दस्य उच्चारणेन तर्कस्य पङ्क् पङ्क्तिः एव अतिष्ठति इत्युक्ते तत्र कस्य ज्ञानं भवति चेत् धनस्य इत्येव तस्य ज्ञानम् धनत्व धनवत्त्वशब्दस्य उच्चारणेन अस्माभिः धनम् इति एव ज्ञायते तर्केण यतोहि धनवत् इत्यस्मात्त्वप्रत्ययः अस्ति सः धर्मम् बोधयति अपि च धनवती विद्यमानः यः धनवान् अस्ति तस्मिन् विद्यमानः धर्मः धनम् एव अतः तर्कस्य पङ्क्ति धनं प्रति एव गच्छति धनं पार्थिवद्रव्यमस्ति तत् तस्य स्पर्शः भवति इत्युक्ते गुणः नास्ति धर्मः नास्ति पार्थिवद्रव्यमस्ति तत्र स्पर्शः भवति अतः धनवत्वम् अपि तथा धनवत्वम् इति वदामः चेत् तदपि पार्थिवद्रव्यमेव भवति इत्युक्ते धनमेव अस्ति इति वदति स्वरूपं स्पर्शः धनं पार्थिवदिरं तस्य स्पर्शः भवति धनवत्वम् अपि तथा इति उक्तं तर्हि धनवत्त्वम् इत्यस्य अपि स्पर्शः भवति इति उक्तं सामान्यतः भावः भावः सूच्यते यथा सुन्दरस्य भावः सौन्दर्यम् अथवा सुन्दरत्वम् तर्हि सुन, सुन्दरत्वम् अथवा घटस्य भावः घटत्वम् तर्हि यदि यथा घटः स्पर्श घटस्य गा, स्पर्शः कर्तुं शक्यते तथा घटत्वस्य स्पर्शः तु कर्तुं न शक्यते किन्तु अत्र धनम् अपि च धनवत्वम् एतयोः समानार्थः भवति अतः धनवत्त्वमपि तथा अस्ति धनवत्त्वस्य अपि स्पर्शः भवति यतोहि धनवत्त्वम् इत्यस्य आशयः धनम् इति एव धन्यवादः भगिनी पठति निरञ्जना भगिनी श्रूयते वा महोदय एतत् सर्वम् उक्तम् अधुना एतत् सर्वम् अधुन... उक्तं वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयमस्ति द्वाभ्याम् अपि पक्षाभ्याम् अस्माकं लक्षणकार्यं सिद्ध्यति एकस्मिन् पक्षे धनवत्वम् इत्युक्तौ धनम् एव अपरस्मिन् पक्षे धनवत्वम् इत्युक्ते धनाधिकरणत्वं धनस्य अधिकरणं तस्मिन् अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वं धनवत्वं धनम् एव इति चेत् धनवत्वं संयोगसम्बन्धेन धनवती अस्ति धनवत्वं धनाधिकरणत्वम् इति चेत् स्तरूपसम्बन्धेन धनवती अस्ति तत्र न्यायशास्त्रे पक्षद्वयमस्ति अत्र उक्तं अधुना एतत् सर्वम् उक्तं इति चेत् धनव इति निष्कर्षः प्रथमपक्षम् इत्युक्ते धनमेव इति प्रथमपक्ष पूर्वे वयं दृष्टवन्तः अन्यपक्षः अस्ति धनवत्त्वमित्युक्ते धनाधिकरणत्वम् इत्युक्ते धनस्य अधिकरणम् विद्यमानधर्मः धनाधिकरणत्वम् इति अतः धनवत्वम् इत्युक्ते धनादिकरणत्वम् इति प्रथमपक्ष अस्ति धनवत्त्वं धन अनन्तरं तत्र संयोगसम्बन्धः अस्ति अन्यपक्षः अस्ति धन धनवत्त्वं इत्युक्ते धनादिकरणत्वं तत्र सौसम्बन्धः अस्ति इति उक्तमस्ति तत्र धनवत्वं धनादिकरणत्वम् इत्युक्ते तत्र विशेषणता धर्म जाति नास्ति तत्र अतः उपाधि अस्ति अतः सर्वसम्बन्धः भवति वा महोदयवारं अत्र धनवत्त्वं धनाधिकरणत्वम् अत्र सर्वसम्बन्धः कथं भवति इति अस्ति तत्र विशेषणताधर्मः अस्ति तत्र उपाधिः अस्ति धनवत्वं जाति नास्ति अधिकरणत्वम् इति अथवा अधिकरणता इति अपि वक्तुं शक्यते धनाधिकरणता पूर्वम् यत् अभावः अपि च प्रतियोगिता अनियोगिता आधेयता अधिकरणता एते धर्माः स्वस्य आश्रये स्वरूपसम्बन्धेन भवति इति पूर्वं दृष्टम् सम्दा, सम्दा। अत्र स्वरूपसम्बन्धः आयाति अतः सर्वे उपाधयः या भवत्या सम्यक् उक्तम् उपाधयः स्वस्य आश्रये अथवा आधारे स्वरूपसम्बन्धेन भवन्ति अपि च अभावः अपि तथा अस्ति यद्यपि अभावः उपाधिः नास्ति उपाधिः नास्ति परन्तु अभावस्य सम्बन्धः सर्पसम्बन्धः एव अस्ति अपि च प्रतियोगिता अनियोगिता अधेयता अधिकरणता अविच्छेदता अनुच्छेदकता एते सर्वे उपादयाः स्वरूपसम्बन्धेन भवति स्वस्य आश्रयम् आश्रयेषु अतः द्वितीयपक्षः अस्ति धनवत्तम् तत्र अस्ति सम्बन्धः स्वरूपसम्बन्धः अस्ति तथैव अग्रे पठामि वा महोदय तथैव गन्धः गन्धवत्वं च गन्धवत्वं गन्धः एव इति चेत् समवायसम्बन्धेन पृथिव्यामस्ति प्रथमः पक्षः अस्ति गन्धवत्वं गन्धः इत्युक्ते तत्र समवायसम्बन्धः अस्ति पृथिव्यामस्ति गन्धवत्वं इत्युक्ते गन्धाधिकरणत्वम् इति पक्षद्वयमस्ति तत्र स्वरूपसम्बन्धेन पृथ्व्यां गन्ध गन्धवत्वमस्ति उभय अत्र गन्धवत्वं पृथिव्याः लक्षणम् अस्मिदाहरणे गन्धवत्वं पृथिव्यां लक्षणम् इति अस्ति गन् तत्र कथं भवति गन्धनिष्ठ आधेयतानिर्पित अधिकर्णताश्रयः पृथ्वी गन्धः इति आधेयः अस्ति अधिकरण अधिकरणमस्ति पृथ्वी अतः गन्धनिष्ठा अधेयता निरूपिताश्रयः पृथ्वी अनेन आधाराधेयभावः अपि अपि प्रदर्शितः गन्धवत्वं गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणं गन्धवत्वं गन्धः एव इति चेदपि गन्धवत्वं पृथिव्याः लक्षणं सः पृथिव्याः लक्षणं गन्धवत्वं पृथिव्याः लक्षणम् अथ गन्धाधिकरणत्वम् अपि पृथिव्यालक्षणं भवितुम् अर्हति अन्यपक्षि गन्धवत्वं गन्धवत्वम् अथवा गन्धाधिकरणत्वम् उभयम् अपि स्वीकृत्य अस्माकं लक्षणं सिद्धति एव गन्ध गन्धवत्वं पृथिव्याः लक्षणम् इति लक्षणं सिद्ध्यति एव इति अत्र अस्ति अनेन कस्य अपि प्रश्नः अस्ति वा अस्तु इदानीं यत् अस्ति तस्मिन् हा प्रश्नः अस्ति इदानीं किमस्ति अत्र परिशिष्टमस्ति किन्तु तस्मिन् केचन नूतनः बिन्दवः सन्ति यस्मिन् वि, यस्य विषये अस्माभिः इतोऽपि न विद्याधरीग्रन्थे पठितमस्ति अतः अयं भागः वयम् अग्रिम अवसरे स्वी स्वीकरिष्यामः केवलम् एकम् एव अत्र दर्शयतु इच्छामि तत्र लिखितमस्ति अत्र, अत्र आ, अग्रे प्रश्नः उदेति यत् यत्र यत्र, यत्र विशेषणविशेषभावः अस्ति तत्र तत्र आधेय आ, आधार आधेयभावः अस्ति वा इति युक्तौ विशेषणं सदा आधेयम् अथवा आधारः द्वयोः मध्ये एकः भवति एव इति वा कुत्रचित् यत्र आधार नास्ति तशेणव भर्शेणम अर्हति तश् अवगत यशे अस् तधे आधे भाव अयरूपेण अस् प्रश्न अस्त उत्तर इदम उक्तमस्त चैत्र पुरुष से किञ्चित् धनमस्ति चैत्रस्य पार्श्वे धनमस्ति क्षमतां चैत्रस्य पार्श्वे नास्ति किन्तु चैत्रस्य धनम् अस्ति तद्धनं तु वित्तकोषस्य पेटिकायाम् अस्ति चैत्रस्य धनं वित्त वित्तकोषे अस्ति तस्य पार्श्वे नास्ति तत्र धनं पेटिकायां नतु चैत्रस्य सविधे न चैत्रस्य सकाशे अत आधे आधार आधेय तनम अ चैत्र मध्य आधार आधेय धन चैत्र शरीर नर हते नथवा शरीर चैत्रस्य से नास्ति नथवा चैत्रस्य शरीर नास्ट किंतु विकोशे अस्प च तर्हि अत्र आधेय आधार आधेयभावः तु नास्ति किन्तु स्वत्वस्वामित्वभावः अस्ति स्वत्वस्वामित्वभावः यद्यपि आधार आधेयभावः नास्ति तथापि स्वत्वस्वामित्वभावः नास्ति स्व इति युक्ते अपि च स्वामी इति युक्ते चैत्रः तस्य धनस्य स्वामी भवति अतः एव मतु्रत प्रयोग है योग्यव चैत्र धन यद्य चनम विकोशे अस्था चैत्र धनवा श्य विशेष विशेषण विशेष अस्तु आधार आधेय भाव नास्त्र संयोग धन सह अत्र, यैत्र अनम अ शीरूपेण यदा धनम पाश्नाधारधेय नास्ु धन चैत्र से तो अस्व आधार आधेय धनपेटिको धनम पेटिकायां अस्ह धनम अच्छा चेटिका एक मध्य आधार आधेय अस्न धनम पेटिका आधार है तदाधारेण कस्यचित् तादृशज्ञानम् अस्ति चेत् विशेषविशेषणविशेषभावः अपि अस्ति स्वस्वामित्वभावः धनचैत्रयोः अतः तदाधारेण कस्यचित् तादृशज्ञानम् अस्ति चेत् विशेष विशेषणविशेषभावः अपि अस्ति चैत्रः धनवान् अत एव मत्तु प्रत्ययस्य अर्थः तस्य तस्मिन् वा इति अस्ति तस्य अथवा तस्मिन् वा यदि धनं चैत्रस्य चैत्रस्य शरीरे अस्ति तर्हि धनं धनं चैत्रे अस्ति इति वक्तुं शक्यते किन्तु यदि धनं वित्तकोषे अस्ति तदानीं चैत्रस्य धनम् इति एव वक्तव्यं भवति चैत्रे धनमस्ति इति वक्तुं न शक्यते इति एकः अंशः अत्र आसीत् तर्हि अवशिष्टं करपत्रं वयम् अग्रिम अवसरे पठिष्यामः यदा अस्माभिः अत्र अविच्छेदकसम्बन्ध इति टेक्निकल् टर्म् अस्ति तद्विषये वयम् अग्रे एव जानीमः अतः इदानीम् इदम् अवशिष्टम् इदं परिशिष्टं न पठिष्यामः तर्हि अनेन इदं करपत्रं समापितं भवति तर्हि वयं लक्षणग्रन्थं प्रति गच्छामः तत्र पूर्वं यत अस्माभिः अधीतं तद्विषये किञ्चित् पुनरावलोकनं कुर्मः द्रव्यनिरूपणम् अत्रैव लक्षणग्रन्थः आरभ्यते पुस्तके तर्हि लक्ष्मीभगिनी आं महोदय अत सुक्षर यिखित अस्त मध्य पटती वंधवती पृथ्वी पृथिव्या लक्षण अस्वूपण तंधवती पृथ्वी साधा नि अ कार्यूपा पुन शरीर इंद्रियेष विषय भेदा शरीरम अस्मदादीना इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवती विषयो मृत् मृत् पाषाणादिः इति अत्र अत्र द्रव्यं प्रथमगन् द्रव्यं स्वीकृतम् अस्ति अत्र गन् पृथिवी कीदृशी पृथिवी इत्युक्ते गन्धवती पृथिवी इति अत्र दत्तमस्ति अत्र पृथिव्याः लक्षणं अत्र द्विविधं भवति पृथिवी तु विद्यापि अर्हति अनित्या अपि अर्हति नित्या इति वदेमश्चेत् सा परमाणुरूपा भवति इत्युक्ते तस्याः इतोपि अधिकभेदनं कर्तुं आ, कारिय, कारिय न शक्यते अनित्या इत्युक्ते अत्र कार्य कार्यरूपेण तस्याः रूपं सूचितमस्ति अत्र कार्यरूपा पृथिवी तु पुनर्द्विविधा भवति अत्र शरीर इन्द्रियविषयभेदात् सा त्रिविधा भवति शरीरम् इत्युक्ते अस्मदादीनाम् अत्र शरीरं शरीरप्रदर्शितशरीरं तु अत्र अत्र प्रथम भेदः भवति द्वितीयं त्व यत् इन्द्रियम् उपयुज्य अत्र गन्धस्य घ्राणं भवति तदेव अत्र प्रदर्शितम् अस्ति तत् तत् तत् इन्द्रियं तु नासस्य अग्रे वर्तते अतः नासाग्रवर्ती इति कथ्यते तृतीयभेदः अस्ति अत्र मृत्पाषाणादिः इति अत्र अस्ति किमर्थम् इत्युक्ते पृथिवी विषयः अस्ति मृत्पाषाणादि आदीनाम् इति अत्र दत्तमस्ति अत्र केचन कानिचन पदानि सन्ति नित्या अनित्या अनन्तरं शरीर इन्द्रियविषय किञ्चित् अत्र वदामि नित्य नित्यत्वम् इति युक्ते किं तर्हि यस्य उत्पत्तिः नास्ति अपि च नाशः अपि नास्ति तादृशं तादृशपदार्थः भवति नित्यपदार्थः इति तर्हि उत्पत्तिशून्यत्वे सति नाशून्यत्वम् नित्यत्वम् इति नित्यत्वस्य लक्षणम् अस्ति उत्पत्तिशून्यत्वे सति नाशून्यत्वम् नित्यत्वं तथैव अनित्यत्वस्य लक्षणमस्ति उत्पत्तिशालित्वे सति नाशशालित्वम् अनित्यत्वम् अथवा उत्पत्तियुक्तत्वे सति नाशयुक्तत्वम् अनित्यत्वम् इति नित्यत्वम् अपि च अनित्य नित्य अपि च अनीत्वपदार्थस्य लक्षणम् अस्ति अपि च अत्र अग्रे अस्माभिः पूर्वं पठितमासीत् प्रागभावस्य प्रागभावस्य अप्रतियोगित्वम् तथा तथैव ध्वंस प्रध्वंस अभावस्य अप्रतियोगित्वम् अपि नित्यत्वं भवति तथा तथैव अनित्व अनितत्वविषये वक्तव्यं चेत् प्रागभावप्रतियोगित्वं ध्वंस अभावप्रतियोगित्वं च तद्भवति अनित्यम् नित्या परमाणुरूपा अनित्या कार्यरूपा कार्यम् इति युक्ते यत् उत्प उत्पद्यते यत् उत्पादयितुं शक्यते तत् कार्यं घटपटादि कार्यम् कार्यम अस्ति यज्जन्यम् अस्ति तत् सर्वं कार्यं भवति अनन्तरं शरीरम् इत्युक्ते किं न्यायशास्त्रभाषया शरीरम् इत्युक्ते आत्मनः भोगस्य आयतनम् आत्मनः भोगः शरीरे भवति भोगः इति उक्ते सुखदुःखानां साक्षात्कारः सुखदुःखानाम् अनुभवः आत्मा स्वस्य शरीरे एव अनुभवति पश्यतु अत्र आत्मा इति विभूद्रव्यमस्ति सर्वत्र विभु व्या व्यापकं शरीरं तु मूर्तं द्रव्यम् अस्ति तर्हि आत्मा अन्यस्य अन्यत् शरीरमस्ति तस्मिन् एव मम आत्मा अस्ति एव तर्हि अन्यत् शरीरे यत् सुखदुःखमस्ति तस्य अनुभवः अपि मया भवति वा इति प्रश्नः तर्हि तत्र न्यायशास्त्रं वदति यत् स्वस्य शरीरस्य अवच्छेदेन एव सुखदुःखानां साक्षात्कारः आत्मनः भवति तर्हि तस्य आशयः किम् इति चेत् मम आत्मा आ, मम शरीरे वि वर्तमानं यत् सुखदुःखं तस्य एव अनुभवः कर्तुं शक् शक्नोति न तु अन्यस्य तर्हि शरीरमिति आत्मनः भोगायतनम् अपि च इन्द्रियम् इति युक्ते तत्तत् ज्ञानजनकम् इन्द्रियम् तर्हि इन्द्रियं भिन्नभिन्न धर्माणां ज्ञानं कारयति यथा रूपरसगन्धस्पर्श शब्द इत्यादि इति इत्युक्ते भोगस्य साधनम् यथा शरीरं भोगस्य आयतनम् अथवा भोगस्य भोग आ, यत्र भोगः जायते तादृश अधिकरणं स्थलम् तथैव विषयः इति युक्ते भोगस्य साधनं विषयं स्वीकृत्य एव अस्माभिः भोगः सुखदुःखस्य साक्षात्कारः भवति अनुभवः इति अस्ति अनन्तरम् इन्द्रियं गन्धग्राहकम् घ्राणं नासाग्रवर्ती तर्हि इन्द्रियस्य नाम किम् अस्ति इति चेत् घ्राणम् एव इन्द्रियस्य नाम घ्राणेन्द्रियम् इन्द्रियं घ्राणं घ्रणेन्द्रियम् तद् गन्धग्राहकं गन्धविषयकज्ञानजनकम् इन्द्रियं घ्राणेन्द्रियम् अपि च तस्य अधिकरणं किम् चेत् नासाग्रवर्ती नासस्य अग्रे नासिकायाः अग्रे वर्तते इन्द्रियम् तथा पूर्वमित्तम् इन्द्रियमिति सूक्ष्मद्रव्यमस्ति तत्तु द्रष्टुं न शक्यते नासिका तु द्रष्टुं शक्यते यतोहि नासिका शरीरस्य भागः एकः भागः अस्ति किन्तु इन्द्रियं तथा नास्ति इन्द्रियं सूक्ष्मम् अस्ति इन्द्रियस्य ज्ञानं न भवति तस्य अनुमानम् एव भवति अपि च इन्द्रियं नास नासिकायाः अग्रे वर्तते इति उच्यते अनन्तरं शरीरम् अस्मदादीनां शरीरम् अस्माकं न केवलम् अस्माकम् अपि तु आदिपदेन पशूनां शरीरं पक्षीणां शरीरम् अपि वृक्षाणां शरीरम् एतत् सर्वं शरीरम् इति पदेन शरीरम् इत्यत्र अन्तर्भूतं भवति अनन्तरम् अस्माभिः दृष्टं लक्ष्यं किम् इति चेत् यः विषयः अस्माभिः ज्ञातुम् इष्टः अस्ति ज्ञान् यद्विषयं यस्मिन् विषये अस्माभिः ज्ञातुम् इच्छा अस्ति तद् भवति लक्ष्यं सः पदार्थः भवति लक्ष्यम् अपि च तस्मिन् लक्ष्ये लक्ष्ये विद्यमानः कश्चित् असाधारणविलक्षणधर्मः तब लक्षण यहाँ गो लक्षण कि सासना पदार्थ सासनाव गो वो लक्षण यसना पदार्थ केवल गवि अस्वु गोषु अस्ट अभी चौंहाय अस् सावर् असधारण बोती आ, गोशु अत तु लक्षण ग्रंथम स्वीकृत्य वयम अग्रे केचन पठा कहचन भागा अस्वता सलशं तेजसा लक्षण लक्षणम् अपि च वायोः लक्षणम् इति भागं वयम् अग्रिमावसरे पठिष्यामः अत्र स्थगयामः सर्वेषां धन्यवादः धन्यवादः धन्यवादः महोदय ध्वनिमुद्रण